गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायं 26. कन्यो वाच श्रीनिवास वै आगतोत्र वदस्व मे शेषाचलोऽपि कुत्राभूत्कदा पापः स्वामि पुष्करिणी चात्र किमर्थं ह्यगदावद जैगीषव्य महा महातागेव्यङ्कटेशस्य चागमम् आवयोर्देवि पापानि विश्रमं यान्दिभामिनि आसीत् पुरा हिरण्याक्ष काश्यपो दिदिनन्दनः सनकादेश्च वाग्दण्डाद्वितीयद्वारपालकः बभूव दैत्ययोनौ च देवानां कण्डको बली सञ्जीवो हरिभक्तो महाप्रभुः हिरण्याक्षस्वयं दैत्यो हरिभक्तविदूषकः एतादृशो हिरण्याक्षस् तपस्तप्तुं समुद्यतः तदा मादादिर्देवी हिरण्याक्षमुवाच सा दिदिरुवाच वत्सलस्त्वं महाभागमातपस्वाष्ठहायनः त्वं मा ददस्वदुःखं मे पालयिष्यति कोविदः क्षणमात्रं न जीवामि त्वां विना मातपत्वं महाभागमम जीवन हेदवे एवमुक्तस्तु मात्रा विजयो वशतो ब्रवीद हिरण्याक्षो मादरं प्राहजालं हित्वा विष्णोर् भजने लं गुरुष्व मयि स्नेहं पुत्रभेदोर्विरूढं सुखदुःखे चेहलोके परत्र यावत् स्नेहं मयि माधरोषि तावत्क्लेशं शाश्वतं यास्यसि त्वं माधश्च मयि पुत्रत्वबुद्धिस् त्वय्यप्येषा मातृबुद्धिर्ममापि तादे पूज्येऽपि दृबुद्धिर्ममास्ति तस्मिन् स्तुदे सर्वं सम्यक् पादानियतोसौ अदो हि मादाहरिरेव सर्वदा त्वन्यासां वै मातृदा चोपचाराद निर्मातृत्वं यदि मुख्यं त्वयि द्रोणादीनां जननी कावदस्व मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी कावदस्व यतः सदा यादिजगत्तदो हरिः सदा पिदा विष्णुरजपुराणः सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकको वद स्या मादा पित्रोः पालकत्वं यदि स्यात् कूर्मादीनां पालकौ कौ वदस्व मातापित्रोत्पालकत्वं यदि स्यात् कृपादीनां रक्षकौ कौवदस्व पुन्नामकान्नारकादेह भजान्तस्मात् राधापुत्रविष्णुपुराणः नतारकोऽकं नरकाच शुभ्रूर्नवैभर्तानापि पित्रादयश्च न वै मादाननुजादिश्च सर्वत्रादा विष्णुरधो न जान्यः मायां मदीयां ज्ञानशस्त्रेण चित्वा भक्त्या हरे स्मरणं त्वं गुरुष्व यद्भक्तिरूपपूर्वं स्मरणं नाम विष्णोत्तत्सर्वधापापहरं च मातः यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यदि अयं देहो दुर्लभकर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः आयुर्गदम् व्यर्थमेव त्वदीयं शीघ्रं भजे श्रीनिवासस्य पदम् उपदिश्यैवम् मादरम् पुत्रवर्यो दैत्या व्येशात्सो भवद्वै तपस्वी सदुर्मुखम् प्रेणय त्वैव तस्मान् ह्यवभ्यत्वम् तदो भूमिं तदभूमिम् करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा श्रीमुष्टदेश्ये प्रादुरासी धरिस्तु वाराह विष्णुस्त्वजनः पुराणः भित्त्वा चाभिं विविशे तं महात्मा रसातले संस्थितम्भूतलम् च स्वदंष्ट्राग्रे स्थापयित्वा जगाम तदा गमादागदो दैत्यवर्यः तं कर्णमूले ताडयित्वा जखानप्रसादयामास च पूर्ववद्भुवं सुदिग्गजां स्थापयित्वा च विष्णुश्रीमुष्टे वै संस्थितश्रीवराहः तदा हरिश्चिन्तयामास विष्णुर्भक्रिया मदीयम् मानुषं देहमद्य आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेषर्षसंज्ञम् ीन्द्रस्कन्धे स्थापयित्वा स्वयम् च समागतो भूद्भूदलम्भूदलेशः सुवर्णमुखरीतीरमारभ्य गरुड्वजः श्रीकृष्णवेणीपर्यन्तं स्थापयामः स तम् गिरिम् गिरे पुच्छे दुः श्रीशैलं मध्यमेहोबलं स्मृतं मुखं च श्रीनिवासस्य क्षेत्रं च सुमुदाहृदम् अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहो बले गंगादि पुण्यानि पुन्यानि सन्ति वै ययेनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्नुयाद पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति यं यं कामयदे मर्त्यस्तन्तमाप्नोति सर्वथा चिन्तितं साध्यते यस्मात् तस्माच्चिन्तामणिं विदुः पुष्करिण्याश्च बाहुल्या गिरावस्मिन् सरस्सु च पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्धवेदिनः शादकुम्भस्वरूपत्वात्कनकाद्रिं च दं विदुः वैकुण्ठादागते नैव वैकुण्ठाद्रिरिति स्मृतः अमृतैश्वर्यसंयो व्यङ्कटाद्रिरिति स्मृतः व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति तावद्वक्तुं समग्रेण न समर्थश्च दुर्मुखः परां भक्तिं ये कुर्वन्ति दिने दिने पङ्गर्ज पङ्गर्जङ्कालयेव स्यादचक्षुपद्मलोचनः भोगो वाक्मी भवेदेव बधिरश्रावको भवेद वन्द्या स्याद्बहुपुत्रा जन्निर्धनसधनो भवेद एतत् सर्वं गिरौ भक्तिमात्रेणैव भवेद् ध्रुवम् तत्वदो व्यङ्कडाद्रैस्तुस्वरूपं वेत्ति गो भुवि यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान् मायावीपरमानन्दं त्यक्त्वा वैकुण्ठमुत्तमं स्वामि पुष्करिणीधीरे रमया सहमोददे मोददे कल्याणाद्भुतगात्राय का कामितार्थक्तदायिने श्रीमद्व्यंगड़नाथ श्रीनिवासा ते नम श्रीस्वामीष्क महात्म्यं शृणुके स्वामी, स्वामी मध्ये स्वामी पुष्की मध्ये श्रीनिवासोस्व स्नानं कुर्वन्ति तत्र तेषां मुक्तिकरे स्थिता तिस्रकोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये तानि सर्वाणि तत्रैव तीर्थे हरे सदा तत्तीर्थं श्रीनिवासाख्यं सर्वदेव नमस्कृतम् तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् तद्दर्शनादेव कन्येयान्तिपानि भस्मसाद येकैकस्नानमात्रेण सत्सङ्गो भवति ध्रुवम् सत्सङ्काज्ञानमासाद्यज्ञानान् मोक्षं च विन्दति अधिकारिणाम् भवेदेवम् विपरीतमयोगिनाम् तीर्थानाम् स्नानमात्रेण मोक्षम् यान्दीदिये विदुः ते सर्वे असुराज्ञेयास्ते यान्दिह्यधमाम् गतिम् श्रीनिवासस्य तीर्थेऽस्मिन्वायुकोणे च कन्यके आस्ते वायुः सदा विष्णो पूजां कर्तुमनुत्तमाम् वायुतीर्थं च तत्प्रोक्तम् हस्तद्वादशकान्धरम् हस्तषट्कप्रमाणं च पश्चिमे समुदाहृतम् उत्तरे हस्तष्टकं तु वायुतीर्थमुदाहृतम् ये वैष्णवैष्णवदासवर्यास्नानं सूर्युस्तत्र पूर्वं सुकन्ये मध्वान्तस्ताश्रीनिवासस्तु नित्यमत्र स्नानात्रीयतां मे दयालुः ये मध्वतीर्थे स्नातुमिच्छन्ति देवि रुद्रादयो वायुभक्ता महान्तः सदा स्नानं तत्र कुर्वन्ति देवि प्रातःकाले चोदयात् पूर्वमेव ये वायुतीर्थे विसृजन्ति देहजम्मलं मूत्रं वमनं श्लेष्मकं च ये पानशुद्धिं लिङ्गशुद्धिं च कन्ये कुर्वन्ति ते ह्यसुरा राक्षसाश्च शृण्वन्ति ये भागवतम् पुराणं किं वर्णये तस्य पुण्यं तु देवी ये कृष्णमन्त्रं तु जपन्ति देवी ह्यष्टाक्षरं मन्त्रवरं सुगोप्यं तेषां हरिप्रीयदे केशवोलं मध्वान्धस्थो नात्र विचार्यमस्ति एवं दानं तत्र कुर्वन्ति ये वै वैष्णवानां विधां च तेषां पुण्यं नैव जानन्ति देव जानात्येवं श्रीनिवासो हरिस्तु शालग्रामं वायुतीर्थे ददन्ते तेषां पुण्यं वेत्ति सव्यङ्गणेश्यः सुदुर्लभो वायुतीर्थेऽभिषेको निष्कामबुद्ध्या वैष्णवानां च देवि तत्रापि तीर्थे लभ्यते भाग्ययोगाद् भागवतस्य श्रवणं विष्णुदासैः तथैव तीर्थे दुर्लभं तत्र देविशालग्रामस्य द्विजवर्ये जानम् जम्बूफलाकारसुनीलवर्णं मुखद्वयं चक्रचतुष्टयान्विधं सुके सरैसंयुधं स्वर्णचिह्नध्वजां कुशैर्वज्रचिह्नैर्य वैश्च जनार्दनी मूर्तिमाहुर्महान्तो दानं तस्या दुर्लभं तर्प तत्रतीर्थे अत्युत्तमं मूर्तिदानं तु भद्रे सुदुर्लभं परमं नात्र लोभः सुदुर्लभं बहु दोग्ध्याश्च गृष्टेर्दानं तथा वस्त्ररत्नादिगानाम् अत्युत्तमं द्रव्यदानं च देवि दानं दान माहुर्महान्तः स्वस्यानपेक्षं फलदानं च वस्त्रादानं तस्य व्यर्थमाहुर्महान्तः अत्युत्तमं दृष्टिदानं च नैवाप्यदे दुग्धदोहाश्च अत्युत्तमे वस्त्रदाने सुबुद्धिः सुदुर्घटा परमा वैजनानाम् अत्युत्तमं भागवतस्य पुस्तकं सुदुर्घटं वायुतीर्थं च कन्ये अत्युत्तमं द्रव्यदानं च देवि सुदुर्घडं वायुतीर्थं नृणां हि सुदुर्लभो वैष्णवैस्तत्वविद्भिर्हरेर्विचारो वायुतीर्थे च कन्ये श्रीनिवासस्य तीर्थस्य उत्तरस्यां दिशि स्थितं चन्द्रतीर्थमिति प्रोक्तं तत्रास्ते चन्द्रमा सदा श्रीनिवासस्य पूजां च तत्र स्थित्वा करोत्ययं तत्र स्नानं प्रकुर्वन्ति पुण्यदेशे च कन्यके गुरुतल्पादिपापेभ्यो मुच्यन्ते नात्र संशयः तत्र स्नात्वा पूर्वभागे शालग्रामं ददाधियः ज्ञानद्वारा मोक्षमेधि नात्रकार्या विचारणा दधिवामन वामनमूर्तेश्च दानं तत्र सुदुर्लभं बदरीफलमात्रं दुवधुलं नीलवर्णकम् प्रसन्नवदनं सूक्ष्मं सुनिघतं कन्यके शुभे चक्रद्वयसमयुक्तं गौपूरै पञ्चभिर्युधं चाबबाणसमायुक्तमनतं कुण्डलाकृतिं वनमालसुखयुधं मूर्ध्नसाहस्रसंयुधं रौप्यबिन्दुसमायुक्तं सव्ये भद्रार्थमात्रगं चन्द्रेण सहितं देवि दधि वामनमुच्यते दे। एतादृशं कलौ नृणां दुर्लभं बहुभाग्यधं लक्ष्मीनारायणसमां तां मूर्तिं विद्धिभामिनि सुदुर्लभं तस्य मूर्तेश्च दानं तच्चन्द्रतीर्थे श्रवणं दुर्घटं च सम्यक् स्वरूपं दधि वामनस्य सुदुर्घटं श्रवणं वैष्णवाच तत्र स्नात्वा वामनस्य स्वरूपश्रवणाद्विदुर्दानफलं समं च दशहक्तप्रमाणं तु चन्द्रतीर्थमुदाहृदं मध्याह्ने दुर्लभं स्नानं नृणां तत्र सुमङ्गले तत्र स्थित्वा धन्यनरः सदा भजति वै हरिं वराहमूर्तिदानं तुलग्रामस्य दुर्लभम् जम्बोफलप्रमाणं तु यदद्वै कुक्कुडाण्डवद वदनं वलयाकारं प्रमाणं चणकादिवद देवस्य वामभागे जध्यदेशं विहाय चक्रद्वयसमायुक्तम् मूर्धदेशे च भामिनि सुवर्णबिन्दुना युक्तदम्भूवराहाख्यमुच्यते पूजां कृत्वा भूवराहस्य मर्देर्दानं दत्त्वा श्रवणं चापि कृत्वा तत्र स्थितम्भूवराहं च दृष्ट्वा स वैनर कृतकृत्यो हि लोके तत्र स्नात्वा भुवराहस्य मार्ते शृणोदियो लक्षणं सम्यगेव सते न पुण्यं समुपैति देवी भाग्नात्र विचार्यमस्ति ईशानकोणे श्रीनिवासस्य देवी रौद्रं तीर्थं परमं पावनं च तत्र स्थित्वा रुद्रदेवो महात्मा पूजां करोति श्रीनिवासस्य नित्यम् हस्ताष्टकं तत्प्रमाणं वदन्ति तत्र स्नानं वैष्णवै कार्यमेव तत्र स्नात्वा प्रयदो वै मुरारे कथां दिव्यां शृणुया स्नानं पानं तत्र दानं च कुर्यालक्ष्मी नृसिंहप्रियते दे देवि नित्यं बदरीफलमात्रं च वर्धुलं बिन्दुसंयुधम् देवस्य वामभागे दुचक्रद्वयसमन्वितं सुवर्णरेखा संयुक्तं वैश्यवर्णं सवदनम् पद्मरेखादिचिह्नितंदम् लक्ष्मीनृसिंहं तं विद्धि भुक्तिमुक्तिप्रदायकम् एतादृशं गण्डिकाया शिलाया मूर्तेर्दानं दुर्घटं विद्धिवेन्द्र तत्र स्नात्वा श्रीनृसिंहस्वरूपम् लक्ष्मीपदे शृणुयाद्भक्तियुक्तः मूर्तेर्दानात् बलमाप्नोति देवि सत्यं सत्यं नात्र विचार्यमस्ति ईशानशक्रयोर्मध्ये ब्रह्मतीर्थमुदाहृतं दुर्लभं मानुषाणां तु स्नानं सर्वार्थसाधकं शालग्रामस्य दानं तु दुर्लभम् तत्र वै नृणाम् लक्ष्मीनारायणस्यैव मूर्तेर्दानम् सुदुर्लभम् स्थलमौदुम्बरसमम् तत्प्रमाणमुदाहृदम् छत्राकारं वर्तुलम् च प्रसन्नवदनं शुभम् चणकप्रदेशमात्रम् च वदनम् समुदाहृदम् व्ये दक्षिणपार्श्वे च समयोः पुष्कलान्वितम् गोयुधवत्सवर्णं च चतुश्चक्रसमन्वितं गोखुरैश्च समयुक्तम् सुवर्णकिणसंयुतं वनमालाभिसंयुक्तम् वज्रपुङ्गैश्च संयुधम् एतादृशीं धरेर्मूर्तिलक्ष्मीनारायणं विदुः कलौ नृणां तस्य लाभो दुर्लभ संस्मृतो भुवि दानं च सुदरां देवि दुर्लभं कि वदामि ते ब्रह्मतीर्थे च संस्नाय वैहरे कथा गण्डिकाया शिलायाश्च लक्ष्मीनारायणस्य लक्षणं यो विजानादि तदा तत्सदृशम् फलम् प्राप्नोत्येव न सन्देहो नात्रकार्या विचारणा। श्रीनिवासस्य तीर्थस्य पूर्वे स्यादिन्द्रतीर्थकम् श्रीनिवासस्य पूजां तु कर्तुमास्ते शचीपतिः शालग्रामशिलादानं कर्तव्यं श्रोत्रियाय वै शालग्रामशिलादानं हत्या कोटिविनाशनं तस्मिन् तीर्थे द्वयो देवी सीतारामशिलाभिधां ददाति भूतले भद्रे भूपदे सदृशो भवेद सीतारामशिलादेवी द्विविधा सम्प्रकीर्तिता पञ्चचक्रयुधा काचित् षट्चक्रेण च चा संयुता तत्रापि षट्चक्रयुदाह्युत्तमा सम्प्रकीर्तिता पञ्चचक्रयुधायाश्च फलम् द्विगुणमीरितम् कुक्कुडाण्डप्रमाणं च सुशीघ्रम् नीलवर्णकम् वदनत्रयसंयुक्तम् च्चक्रै केसरैर्युदम् स्वर्णरेखासमायुक्तं ध्वज वज्राङ्गु ध्वज वज्राङ्गुश्यैर्युदं यदादृश्यं तु वैभद्रे सीतारामाभिदं स्मृतं वदने वन्दने देवि सीतारामस्य कोशकं दुर्लभं तु कलौ नृणाम् स्वसाम्राज्यपदं शुभम् इन्द्रतीर्थे महादेवी सीतारामभिधा शिला या तद्दानं दुर्लभं तन्नाल्पस्य तपः सत्फलं दानस्य सक्रियभावे दुःश्रोतव्यं लक्षणं हरेः शालग्रामशिला दानाद्यद्भलं तद्फलं लभेद आग्नेयकोणे श्रीनिवासस्य देवितीर्थं त्वास्ते वह्निसंज्ञं सुशस्तं सवह्निदेव श्रीनिवासस्य पूजा कर्तुं सर्वदा तीर्थमध्ये यो वातीर्थे वह्निसंज्ञे च देवि भक्त्या स्नानं कुरुते जं स्मरन् हि ज्ञानद्वारा मोक्षमाप्नोति देवि तत्र स्नानं दुर्लभं वैनृणां च ज्ञात्वा स्नानं दुष्करं तीर्थराजे भक्ति तस्मिन् दुर्लभा चैव देवी शालग्रामे तच्छिलायाश्च दानं सुदुर्लभं वासुदेवाभिधायाः ह्रस्वं तथा वर्तुलं नीलवर्णं सूक्ष्मं मुखं मुखचक्रम् सुशुद्धं सुवेणयुक्तं वासुदेवाभिधेयं दानं कलौ दुर्लभं तस्य भद्रे दाने तस्याश्च क्रियभावे जे विस्नात्वा तीर्थे वासुदेवाभिधस्य सम्यक् श्राव्यं लक्षणं वैशिलायस्तयोस्तुल्यं फलमाहुर्महान्तः दक्षिणे श्रीनिवासस्य यमतीर्थं च संस्मृतम् तत्रास्ते यमराजस्तु पूजाम् कर्तुम् हरे सदा तत्र स्नानं च चा दानं चाप्यक्षयम् परमं स्मृतं शालग्रामशिलादानं कार्यम् तत्र महामुने पट्टाभिरामसंज्ञाया शिलाया दानमिष्यदे तच्छूतफलवस्थूलं वदनत्रयसंयुधं शिरश्चक्रेण रहितं सप्तचक्रैः समन्वितं नीलवर्णं स्वर्णरेखं गोशुराग्यै समन्वितं पट्टवर्धनरामं तु दुर्लभं बहुभाग्यदं पट्टवर्धनरामं दुर्योददादि दु दु बहु दु च तत्र वै पट्टाभिषिकृतो भवति विचारणा। कार्याविचारणा श्रीनिवासस्य नैरृत्ये नैरृतं तीर्थमुत्तमम् आस्ते हि निरुदिस्तत्र पूजां कर्तुं च सर्वदा तत्र स्नानं प्रकर्तव्यं पुनर्जन्म न विद्यते शालग्रामशिलायाश्च पुरुषोत्तमसम् मूर्तिं ददाति यो औदुम्बरफलाकारं प्रसन्नवदनं शुभं चक्रद्व्यस मायुक्तं शिरश्चक्रसमन्वितं सुवर्णबिन्दुसंयुक्तं वज्राङ्गुशसमन्वदम् तन्मूर्तिदानं दुर्लभं तत्र देवप्रीणादि यस्माच्छ्रीनिवासो महात्मा यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः पाशिन्नायुहृतयोर्मध्ये शेषतीर्थं परं स्मृतं तत्र स्नात्वा शेषमूर्तिं प्रददादि द्विजातये सयादि परमं लोकं पुनरावृत्तिवर्जितम् औदुम्बरफलाकारं कुण्डलाकृतिमेव शेषवद्वदनं तस्य तस्मिं चक्रद्वयं स्मृतं बलं तमेकचक्रेण संयुतं वल्मीकान्विदं किञ्चिद्वर्णसमयुक्तं शेषमूर्तिमधिस्फुडं सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृदा फणोन्नदा प्रबुद्धा स्यात् सप्तलक्षफणान्विता तत्रापि दुर्लभा सुप्तमहाभाग्यकरी स्मृता इह लोके परत्रापि मोक्षदा नात्र संशयः नवचक्रादुपक्रम्य विषत्यन्तं च यत्र सः अनन्त इति विज्ञेयो ह्यनन्दलदायकः विश्वम्भरः स विज्ञेयो विंशत्यूर्ध्वंवरानने तत्रापि केसरैश्चक्रार्लक्षणैश्च समन्वितं कलौ तु दुर्लभं नृणां तद्दानं चादिदुर्लभं स्नात्वा कृत्वा शेषतीर्थे विशुद्धेनैव चेतसा एतेषां लक्षणं श्रुत्वा प्रयाति परमां गतिं ततः परं महाभागे वरुणं तीर्थमुत्तमं तत्रास्ते वरुणो देवः पूजां कर्तुं हरेः सदा तत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमं शिशुमारं च मत्स्यं च दान्तव्यं भूतिकामेन तीर्थेऽस्मिन् विरवर्णिनि जम्भूबलसमाकारा भुच्छे सूक्ष्मा स बिन्दुका चक्रत्रयाज वदने पुच्छोपरि सचक्रका श्रीवत्सबिन्दुमालाढ्या मत्स्यमूर्तिरुदाहृदा पुच्छा शिशुमारमुदाहृदम् वक्रचक्रयुधश्चेत् सा त्रिविक्रम उदाहृदः एतेषां लक्षणं श्रुत्वा वारुणे तीर्थ उत्तमे यानफलं प्राप्य मो विष्णु विष्णुमन्दिरे पूर्वौक्दा मूर्तयो यस्मिन् गृहे तिष्ठन्ति भामिनि भगीरथीतीर्थवरा सन्निधत्तेन संशयः स्वामिपुष्करिणी स्नानं दुर्घटं तु कलौ नृणां तत्र स्थितानां तीर्थानां स्नानं चाप्यधिदुर्घटं शालग्रामशिलादानं दुर्घटं च तथा स्मृतां स्वामि पुष्करिणी तीरे कन्यादानं सुदुर्घटं दुर्घटं कपिलादानं भक्ष्यदानं सुदुर्घटं स्वामि पुष्करिणी तीर्थे तीर्थेष्वन्येषु भामिनि स्नानं गुरु शय्यादानं तथा गुरु जैगीषव्येन मुनिना त्वेव च कन्यका स्वामि पुष्करिणी स्नानं सा चकारधृतवृदा तीर्थेष्वेदेषु सुस्नादानं चक्रेषुभामिनी उवास तत्रसा देवी त्रिसप्त उवास तत्र सा देवी त्रिस्सप्तकन्दिनानि च स्वामिपुष्करिणीतीरमहिमानं शृणोदि अह स यादि परमां भक्तिं श्रीनिवासे जगन्मये श्री श्रीगारूडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमहात्म्ये स्वामी पुष्करिण्यादितीर्थतत्रत्यदेवतदीयशालग्रामलक्षणस्तद्दानादिवर्णनं नाम षड्विंशोऽध्यायः ओम् अध्यायं ट्वेन्टि सेवन् श्रीकृष्ण उवाच सा गदास्नानुपामाध नन्दां पापनिवारिणीं पप्रच्छतं गुरुं विप्रं विनयावनदासुधीः किन्नामेयं नदी विप्र किं कार्यं चात्रमे वद जैगीर्षव्यस्त्वेव वाक्यमे ददुवाचः जैगीर्षव्य उवाच शृणु भद्रे प्रवक्ष्यामि माहात्म्यम् पापनाशनम् इयम् नदी महाभागे सदा पापविनाशिनी ब्रह्महत्यादि पापौ यत्र स्नाने न नश्यति देह्यत्र स्नानम् कर्तुम् समुद्यतैः जलं चाश्रु जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते यावत् शुभ्रोदकं देवि स्नानं तावत् च कारयेद् यावत् शुभ्रोदकं नैव पापं न दके समायादे पापं नष्टमिति ध्रुवं कलाविद्धं विशालाक्षिमहिमा दृह्यते भुवि अत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमं ततश्च ज्ञानमासाद्य विष्णुलोकं स गच्छति गुरुस्त्रीगमनाचन्द्र अहल्यायां गदो सुरापानाच्च शुक्रस्तु सुवर्णहरणात् बलिः ब्रह्मभत्यायाश्च रुद्रो नागो दत्तापहारकः सुदस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि नानेन सदृशं तीर्थं न भूतं न, न भविष्यदि स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि जैषव्येण मुनिना पित्रा सह च कन्यका स्नानं चकार चकारविधिवदुत तिष्ठच्च भामिनि यावच्च पौरुषं सूक्तं तावत् कालं हि तिष्ठति पश्चाद्यप्त्वा महामन्त्रं वेङ्गडेशाभिद्धं परम् द्विचादीन् प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः तस्माच्च देवी कुमारी तीर्थमुत्तमम् कुमारी महिमानं च श्रुत्वा स्नानं चकारसा पुनरावृत्य सा देवी ह्यन्तरा विरजानदीं दृष्ट्वा पप्रच्छसा देवी जैगीषव्यं गुरुं प्रभुं किं संनिकेयं विप्रेन्द्र किं कार्यं ह्यत्रमेवद जैगीषव्यपृष्ठ एवमुवाच करुणानिधिः इयं भागीरथीकन्ये आयादिह्यन्तरेण तु अधः सपृच्यदेह्यन्तर्गङ्गेधिपरमर्षिभिः कन्ये त्वस्यास्तु सलिलम् श्रीनि निवासप्रियं सदा अत्र स्नानम् यः करोति सयादि परमां गतिम् स्नानम् चकार सा जले परमपावने दानादिकं तदा ज्ञात्वा जजापपरमम् मनुम् तु पुनरागत्य अङ्गप्रदक्षिणं चक्रे भक्र्या वेङ्गडनायकम् ब्राह्मणादीन् प्रीणयित्वा वस्त्रगन्धादिभूषणैः पुनपरदिने प्रादस्वामि प्रातः स्वामिपुष्करिणी जले स्नानम् कृत्वा महाभागाय यौ तुम्बुरुसञ्ज्ञिकम् पप्रच्छतं गुरुं देवी नाथं किन्नामि का त्वयं जैगीर्षव्य उवाच इयं तुम्बुरु काभिज्ञा नारी वैवरवर्णि पुरा तुम्बुरुणासागं नारदस्तपसि स्थितः अत्र प्रादुरभुद्विष्णुर्नारदस्य हिताय च स्नानम् ह्य कुरु देह्यत्र स यादि परमाम् गतिम् अत्र स्नानम् मनुष्याणाम् सर्वेषाम् दुर्लभम् कलौ अत्र स्नानम् च पीत्वा च दत्त्वा दानन्यनेकशः पुनरागत्य सा देवी श्रीनिवासं ननामः तस्मिं मन्दिने ब्राह्मणांश्च तर्पयामास भामिनी स्वामि पुष्करिणीं प्राप्य दीपान् प्राज्वालयत् सती सोपानेषु महाभागा दीपावलिभिरञ्जसा प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम् कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् तत्र स्नात्वा महाभागा तदूर्ध्वम् स्नापयेत्स्वयं विश्वसेन सरस्तत्र सर्वपापविनाशनम् तद ऊर्ध्वं महाभागाययौ तत्र दर्दर्शस पञ्चायुधानां तीर्थानि तेषु स्नानं चकारसा तदूर्ध्वम् चाग्निकुण्डम् स्याद्दुरारोहम् तदोग्रदः तस्योपरिब्रह्मतीर्थम् ब्रह्महत्या विमोचनम् सप्तर्षीणां तदूर्ध्वं तु पुण्यतीर्थं च सत्फलम् दशाधिकफलं तेषा तीर्थानामुत्तरोत्तरम् एतेषां चैव माहात्म्यं को वा वक्तुमिहार्हदि ऋषितीर्थेषु सा कन्या चचार तप उत्तमम् ममावतारपर्यन्तं चरित्वा तप उत्तमं, उत्तमं। योगधारणया देहं त्यक्त्वा जाम्बवदो गृहे जादा जाम्बवदी नाम ववृधे तस्य वेश्मनि तस्याः पिता जाम्बवां तस्मा समादा कन्यकां तद्दा रुक्म्या अनन्तरा सैषा मम भार्या खगेश्वर इदं हि परमाख्यानं वेङ्कडार्द्रेर्महागिरेः को वा वर्मयिदुम् शक्तो मधन्यपुरुषो भुवि व्यङ्कटेशस्य नैवेद्यं सदा लक्ष्मीकरोदि वै ब्रह्मापूजयदे नित्यमेवं शास्त्रस्य निर्णयः नैवेद्यभक्षिणां पुंसामुपहासं न कारयेद स्वस्य प्राशस्त्यभावेदु नैवेद्यादिगुणादिकम् ग्राह्यमेव न सन्देहो अन्यधा नारगी भवेद श्रीनिवासात् परो देवो न भूतो न भविष्यदि स्वयम् च पाजयित्वा त्वम् कृतपक्वादिकं श्रीनिवासस्य नैवेद्यं दत्त्वा भोजनमाचरेद इदं तु परमं गोप्यं तवोक्तं च खगेश्वर न कस्यापि च वक्तव्यं गोप्यत्वात् परं प्रवक्ष्यामि तारतम्यं शृणु प्रभो यदि गारुडे महापुराणे ब्रह्मकाण्डे कन्याकृतनातीर्थयात्रादिनिरूपणं नाम सप्तविंशोऽध्यायः ओम्